पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना यस्य वामनुजस्येदं न क्षान्तं मद्विचेष्टितम् प्रथमारुह्यपद्भ्यां स विनामयतु कार्मुकं ततः सर्वस्य रङ्गस्य हाहाकारो महान्भूत् साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् ततो तुर्योधन कर्णमलग्रक नृप दीकानय पांडवाश्च सहद्रोण विशाम्पते। भीष्मेण सहिताः सर्वेययु ययुः स्वं स्वं निवेशनम् अर्जुनेति जनः कश्चित् कश्चित् कर्णेति भारत कश्चित् दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा कुन्त्याश्च प्रत्यभिज्ञायदिव्यलक्षणसूचितम् पुत्रमङ्गेश्वरम् स्नेहाच्छन्ना प्रीतिरजायत दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव भयमर्जुनसञ्जातं क्षिप्रमन्तरधीयत स चापि कृतशस्त्र कृतशस्त्रविश्रमः परेण साम्नाभ्यवदत् सुयोधनं युधिष्ठिरस्याप्यभवत् तदा मतिर्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि अस्त्रदर्शने षट्त्रिंशदधिकशतमोऽध्यायः